ब्रह्मरूप आदिमद्य शेष सर्वभाषकम् भावसीनरूपसत्यमदयम् वाङ्मनोति गोचरं च नितिनितिभावितम् नमामिदेवदेव रामकृष्णमेश्वरम् आरितेयभिहरम् सुरारिदत्यनाशकम् साधुश्रेष्ठकामरम् महे सुभार हार स्वात्मरूपतत्त्वकम् युगे युगे च दर्शितम् त्वं नमामि देवदेव रामकृष्णमेश्वरम् सर्वभूतसर्गकर्मत्रबन्धकारणम् ज्ञानकर्म पाप पुण्य तारतं न साधनम् बुद्धिवाससाक्षिरूप सर्वकर्मभासनं तं नमामि देवदेव रामकृष्णमेश्वरम् सर्वजीव पापनाश कारणं भवेश्वरम् श्रीकृतं च गर्भवाश देहधानमे दृशम् यापितं शलीलया च येन देव्यदेवनं तं नमामि देवदेव रामक्रीशमेश्वरम् तुल्यलोष्टकाञ्चनम् च धिगतं श्री सुनित्यमातृरूपशक्तिभावभाविकं ज्ञानभक्ति सुमुक्तिभोक्ति शुद्धबुद्धिदायकं तं न मामि देवदेव रामकृष्णमेश्वरम् सर्वधर्मगम्यमूल तद्यतत्वदेशकं सेद्ध सर्वसम्प्रदाय सम्प्रदाय वर्जितं सर्वशास्त्रस्य नर्मदर्शिं सर्वविरक्षरं त्वं नमामि देवदेव रामकृष्णमेश्वरम् चारुदर्शकारिका सुगीतचारु गायकम् कीर्तने सुमतवच नित्य भाववेगं सुपदेशदायकं संनमानि देवदेव रामकृष्णमेश्वरं पादपद्मतत्त्वबोध शान्तिसौखदायकं सप्तचेत्तभक्तशोडु नित्यप्रेतबकं दं तु निर्भयं जगज्वरं त्वं नमामि देवदेव रामकृष्णमेश्वरं पञ्चवर्षबालभाव योकहसरूपिणं सर्वलोकरञ्जनं भवाभिसङ्गभञ्जनम् शान्तिसौख्यसद्मदेवा जन्मभीतिनाशनं सं नमामिदेवदेव रामकृष्णमेश्वरं धर्मवानवारकं स्वधर्मकर्मवारकं लोकधर्मचारणं च सर्वधर्मकोमि त्यागिसे से त्यागिगेहि सेव्य नित्य पावनानि पङ्कजं तं न मामिदेवदेव रामकृष्णमेश्वरं तं न मामिदेवदेव रामकृष्णमेश्वरम् तं नमामि देवदेव राम कृष्णमेश्वरं तं नमामि देवदेव राम कृष्णमेश्वरम्